अथ द्वितीयः दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ परायुधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् उद्विग्नहृदयः सर्वा दिशः समवलोकयन् नव्यतिष्ठत वानरपुङ्गवः नैव वीक्षमाणौ महाबलौ कपेः परमभीतस्य चित्तम् यमससादः चिन्तयित्वा स धर्मात्मा गुरुलाघवम् सुग्रीवः परमोद्विग्नः सर्वैस्तैर्वानरैः सह ततः स सचिरेभ्यस्तु सुग्रीवः प्लवगाधिपः शशंस परमोद्विग्नः पश्यं स्तौ रामलक्ष्मणौ एतौ वनमिदम् दुर्गम् वालि प्रणिहितौ ध्रुवम् छद्मनाचीरवसनौ प्रचरन् ताविहागतौ ततः सुग्रीव सचिवा दृष्ट्वा परमधन् विनौ परिवार्योपतस्थिरे एवमेकाय न प्रकम्पयन्तो वेगेन गिरीणाम् शिखराणि च ततः मृगाः सर्वे प्लवमाना महाबलाः बबञ्जुश्च न गांस्तत्र पुष्पितान् दुर्गमाश्रितान् आप्लवन्तो हरिवराः सर्वतस्तं महागिरिं मृगमार्जारशार्दूलाम् स्त्रासयन्तो ययोस्तदा ततः सुग्रीवसचिवाः पर्वतेन्द्रे मुख्येन सर्वे प्राञ्जलय स्थिताः ततस्तु भयसन्त्रस्तम् वालि किल्बिषशङ्कितम् उवाच हनुमान् वाक्यम् सुग्रीवम् यस्मादुद्विग्नचेतास्त्वम् विद्रुतो हरिपुङ्गवा तम् क्रूरं क्रूरम् नेह पश्यामि वालिनम् यस्मात्तव भयम् सौम्यपूर्वजात्पापकर्मणः स नेहवाली दुष्टात्मान ते पश्याम्यहम् बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचरा नह्य बुद्धिम् गतो राजा सर्वभूता निशास्तिः सुग्रीवस्तु शुभम् वाक्यम् श्रुत्वा सर्वम् हनूमतः ततः शुभतरम् वाक्यम् हनूमन्तमुवाचः शरचापासिधारिणौ क्य न सयष्ह्ह्ह्ह्ह् ह्येत सुरसुतेपम वाली प्रणतावेवकेषोत्तम बहुम्च विश्वासोत्रि क्षमा हरयच्च मनुष्येण विज्ञेश्छद्मचारिण विश्वस्ताम विश्वस्ताशिद्रेश प्रहर कृत वाली मेधावी राजो बहुदर्शिन भवन्त्यपरहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः तौ प्राकृतेनेव गत्वाज्ञेयौ ज्ञेयौ प्लवम् गवा इङ्गितानाम् प्रकारैश्च रूपव्याभाषणेन च यदि विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः ममैवाभिमुखम् स्थित्वा पृच्छ त्वम् प्रयोजनम् प्रवेशस्य वनस्यास्य धनुर्धरौ शुद्धात्मानौ यदि त्वे तौ जानीहि त्वम् प्लवङ्गमा या सन्दिष्टो मारुतात्मजः चकारगमने बुद्धिम् यत्र रामलक्ष्मणौ तथेति सम्पूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य महानुभावो हनुमान्ययौ तदा स यत्र रामोति बली सलक्ष्मणः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये किष्यन्धा काण्डे सर्गः